बभूवमुदितो राजन् प्रशंसन् केशवार्जुनौ निवृत्तेष्वथ देवेषु वागुवाचा शतक्रतुम् समाभाष्य महागम्भीरनिस्वना नते ते सखा सन्निहितस्तक्षको भुजगोत्तमः दाहकाले खाण्डवस्य पुरुक्षेत्रम् गतो न च शक्यौ युधाजेतुं कथञ्चिदपि वासव वासुदेवार्जुनावेतौ निबोधवचनान् मम नरनारायणावेतौ पूर्वदेवौ दिविश्रुतौ भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि अपि सर्वेषु लोकेषु पुराणा पुराणावृषिसत्तमौ पूजनीयतमावेतावपि सर्वैः सुरासुरैः यक्षराक्षसगन्धर्वनरकिन्नरपन्नगैः तस्मादितः सुरैः सार्धम् गन्तुमर्हसि वासव दिष्टम् चाप्यनुपश्यैतत् खाण्डवस्य विनाशनम् इति वाक्यमुपश्रुत्य तथ्यमित्यमरेश्वरः क्रोधामर्षौ समुत्सृज्य सम्प्रतस्थे दिवं तदा तम् प्रस्थितम् महात्मानम् समवेक्ष्य दिवौकसः सहिताः सेनया राजन्ननु जग्मुः पुरन्दरम् देवराजं तदायान्तम् सह देवैरवेक्ष्यतु वीरौ सिंहनादम् विनेदतुः देवराजे गते राजन् प्रहृष्टौ केशवार्जुनौ निर्विशङ्कम् वनम् वीरौ दाहयामासतुस्तदा समारुत इवाभ्राणि नाशयित्वार्जुनः सुरान् व्यधमच्छरसङ्घातैर्देहि नः खाण्डवालयान् न च स्म किञ्चिच्छक्नोति भूतम् निश्चरितुम् ततः नमीशु सव्यसाचिनाशक्नुवंशा महांत्य रणेर्जुनमस्त्र योद्धु चापे शतचन दिव्याधशन पतत्रि व्यसवस्ते पतन्नौ साक्षात्लहताइव न चालभंत शर्म क्रोधः सुविषमेषु च पितृदेवनिवासेषु सन्तापश्चाप्यजायत भूतसङ्घाश्च बहवो दीनाश्चक्रुर्मः स्वनम् रुरुदुर्वारणाश्चैव तथा मृगतरक्षवः तेन शब्देन वित्रे सुर्गङ्गोदधिचरा झषाः विद्याधरगणाश्चैव ये तत्र वनौकसः नत्वर्जुनं त्वर्जुनम् महाबाहो नापि कृष्णम् जनार्दनम् निरीक्षितुम् वै कुतः पुनः एकायनगता ये येऽपि निष्पेतुस्तत्र केचन राक्षसादानवानागाजघ्ने चक्रेण तान् हरिः ते तु भिन्नशिरोदेहाश्चक्रवेगाद्गतासवः पेतुरन्ये महाकायाः प्रदीप्ते वसुरेतसि स मां सरुधिरौघैश्च वसाभिश्चापि तर्पितः उपर्याकाशगो भूत्वा विधूमः दीप्ताक्षो दीप्तजिह्वश्च संप्रदीप्तमहाननः